श्रीहरये नमः अथ चतुर्थोऽध्यायः मैत्रेय उवाच एतावदुक्त्वा विररामशङ्करपन्द्यं गनाशं ह्युभयत्र चिन्तयन् सु सुहृद्धिदृक्षो परिसङ्खिता भवात् निष्क्रामति निर्विसति द्विता ससां सुहृदिदृक्षु भवात् निष्क्रामति निर्विसति द्विता ससां सुहृदिदृशा प्रदिघातदुर्मना स्नेहाधृतस्य शुकलाति विह्वला भवम् भवान्यप्रतिपूरुषम् वृषा प्रत्यक्षदीवै क्षतजात वे पतुः तथो विनिः स्वस्य सती विहाय तं शोकेन रोषेण चूयता हृदास्त्रैण विभूटधीर्ग्रहान् प्रेम्णात्मनो योर्धमतात्सथामन्वगच्छन्द्रुतविक्रमां सतीकां त्रिनेत्रानुचरा सहस्रः सपार्षदयक्षा मणिमन्मधादयः पुरो िका गन्धुकर्पणाम्बुज श्वेतातपत्रव्यजनस्त्रगादिभिः गीतायनैर्धुन्दुभि शङ्खवेणुभि वृषेन्द्रमारोप्य विडङ्कितायुः आब्रह्मघोषोर्जितयज्ञवैससं विप्रर्षिजुष्टं विभुतैश्च सर्वसहा वृद्धार्वयका भे निःसृष्टभाण्डं यजनं समाविशत् तामागतां तत्र न कश्चनाद्रियत् विमानितां यज्ञरुतोभया ऋते जननींचसाधरा जननी च साधरा प्रेमाश्रुकण्ठ्यपरिशस्व जुर्मुधा सौन्दर्यसम्प्रश्नसमर्थवार्तया मात्रा च सपर्यां वरमासनं च सा अरुद्रभागं तमवेश्य चात्वरं पित्रा च देवकृतहेलनं विभो अनादृता यज्ञसतस्य धीश्वरी शुकोपलोकानिवधक्षतीरुषा जहर्गसामर्ष विपन्नया गिरा शिवद्विषं स्वतेजसा भूदगणान् समुत्थितान् देवी जगतो भिशृण्वतः श्रीदेव्युवाचा न यस्य लोकेस्तय दिशाय नेह प्रतां प्रियात्मनः तस्मिन् समस्तात्मनि मुक्तवैरके रुते भवन्तं कथमः प्रतीपयेन् दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशा द्विच गुणांश्च पल्कून् बहुलीकरिष्णवो मह त्तमास्तेष्व नाश्चर्यमेदद्यदसत्सु सर्वथामहत् विनिन्दा गुणवात्मवादिशो शेषम् महापूरुषपादभांशुभे निरस्ततेजस्सु तथैव शोभनं भवानहो द्वेष्टि शिवं शिवेधरः यत्पादपद्मं महतां मनो लिपि निषेवितं ब्रह्मरसासवार्धिभिः लोकस्य यद्वर्षति चाशिशोर्तिनः तस्मै भवान् दृह्यति विश्वबन्धवे किं वा शिवाक्यं शिवं न वित्वस्त्वधन्ये ब्रह्मादयस्तम् अवकीर्यटास् जटा श्मशाने तन्माल्य भस्म नृकपाल्यवसत्पिशासै ये मूर्धभिर्धतति तच्चरणावसृष्टम् करुणौ पिधाय जिक्वामसूनपिततो ततो विसृजेत् स धर्मः कलेवरम् न धारियिष्येशिति कण्ठगर्हिणः जग्दस्य मोहाद्यविशुद्धिमन्दसो जगुप्सितस्योद्धरणं प्रचक्षते न वेदबाधाननुवर्तते मति स्व एव लोके रमथो महामुनेः यथा गतिर्देवमनुष्ययो पृथक् स्वयेम धर्मेण परं क्षिपेत्सितः कर्मप्रवृत्तं च निवृत् वेते विविच्चोभयलिङ्गमाश्रितं विरोधिपधैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्चति मावः पदव्यभिर्धरस्मधास्तिता या यज्ञशालासु न धूमवर्त्मभिः तदन्न नैतेन देहेन हरे कृदागसो देहोद्भवेनालमलं कुजन्मना व्रीडा ममापूत्कुजनप्रसङ्गधस्तज्जन्मधिज्ञो महतामवक्यकृत् गोत्रम् त्वदीयम् भगवान् वृषद्वजो दाक्षाय नीत्याह यदा सुधर्म नाः व्यपेत नर्म यद्यत्व रे दक्षमाणुत्यशत्रुहन् क्षिधाबुदीचिं निशसाधशान्तवा पृष्ट्वा जलं पीततु कूलसम्भृता निमील्य कृत्वा समानावनिलौजितासना सुदानमुक्ताप्य चनाभिचक्रतः स नैर्हृतिस्थाप्य एवं स्वदेहं महता महीयसा मुहुत्समारोपितमङ्गमातरा जिहासती दक्षरुषामनस्मिने दधार गात्रेष् अनिलाग्निधारणम् ततस्व भर्दुःशरणाम्बुजावसं जगद्गुरोश्चिन्त्यति न चापरं तत्पश्यता के बुबिषाद्भुतम हा केति वा तस्वयता हन्तप्रिया दैवतमस्य देवी जघावसून् केन सती प्रकोपिता अहो अनात्म्यं पश्यत प्रजापतेर्यश्च चराचरं प्रजाः जघावसून् यद्भिमतात्मजा सती मनस्विनीमानमभीक्षणमर्हति सोऽयं दुर्मर्श हृदयोः Chant, loke pakitim makatim awap siyateen. यथं गजां स्वां पुरुषद्विडुध्यतां न प्रत्यषे धन्मृतये भराधः वधत्येवं जने सत्या दृष्ट्वा सुद्यागमद्भुतं दक्षं तत्पार्षताहन्तु मुदस्तिष्ठन् बुधायुधाः तेषामपततां वेगं निशाम्य भगवान् भृगुः यज्ञेन दक्षिणानौ जुखाव अहूयम देशस ऋभव नाम तपसा सोम्र सह तैरलायुस हन्यमानादिशो भेजोर् उसद्भिर्ब्रह्म तेजसो इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते सती देहोत्सर्गो नाम चतुर्थोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा। गोविन्द सदगुरुनाथ मगराज की जय